अथ प्रथमोऽध्यायः धकराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा आचार्यमुपसङ्गचनमब्रवीत् पश्यैतां पाण्डुपुत्राणामाचार्य महतीं च मू प्यूढां द्विपदपुत्रेण तव शिष्येण धीमता अत्र शूरा महेश्वासा भीमार्जुनसमायुधि युयुधानो विराटश्च पदश्च महारथः धृष्टकेतुश्चेकितालः काशीराजश्च वीर्यवान् कुरुजित्कुन्तीभोजश्च शैव्यश्च नरपङ्गवः युधामन्युश्च विक्रान्तमुत्तमौजाश्च वीर्यवान् सौभद्रो द्रौपदेयाश्च सर्वयेव महारथा अस्माकं तु विशिष्टायै तान् निबोधद्विजोत्तमनायका मम सैन्यस्य सज्ञार्थं तान् ब्रवीमिते भवान् भीष्मश्च कन्नश्च कृपश्च समितिञ्जयः अश्वत्थामाभिकर्णश्च सौमदतिर्जयद्रथः अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदा अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् भी पर्याप्तं त्रितमेतेषां बलं भीमाभिरक्षितम् भी अयनेषु च सर्वेषु यथाभागमवस्थिताः भीष्ममेवाभिरक्षन्तु भी भवन्तः सर्वये तस्य सञ्जनयं हर्षं कुरुवृत्तः पितामहः सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवा ततः शङ्खाश्च भैर्यश्च पणवानकरोमुकाः सहसैवाभ्यन् सशब्दस्तु मुलो भव ततश्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः पाञ्चजन्यं घृषिकेशो देवदत्तं धनञ्जयः पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः नकुलः सहदेवस्य सुघोषमणिपुष्पकौ काश्यश्च परमेश्वासः शिखण्डी च महारथः धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः द्रिपदो द्रौपदेयाश्च सर्वशः पृथिवीपते सौभद्रश्च महाबाहुः शङ्खान् दद्मुः पृथक् पृथक् सघोषोधार्तराष्ट्राणां हृदयानि व्यधारयत् नभश्च पृथिवीं सैवतु मुलो व्यनुनादयन् अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः हृषिकेशं तदा वाक्यमिदमाह महीपते अर्जुनमुवाच सेनयोरुभयोर्मध्ये प्रथमं स्थापय मे यच्छुत यावदेतान् निरीक्षेऽहं योद्धुकामानवस्थितान् कैर्मया सह योद्धव्यम् अस्मिन् ेक्ष्येह ये त्र सगता धार्राष्ट्र से दुर्बु प्रियचिर्षव सजय उवाच येवमुक्तो मुक्त ऋषि केशो गुड़ाकेशन भारत सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् उवाच पार्थ पश्यैतान् समवेतान् कुरुनिति तत्रापश्यत् स्थितान् पार्थः पितृनथ पितामहान् आचार्यान् मातुलान् भ्रातृन् पुत्रान् पौत्रान् स्थता श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि तान् समीक्ष्य स कौन्तेयः कृपया परयाविष्टो विषीदन्निदमब्रवीत् अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्णयुयुत्सुं समुपस्थितं सीदन्ति मम गात्राणि मुखं च परिशुष्यति वेपथुश्च शरीरे महर्षश्च जायते गाण्डीवं स्रंसते हस्तात्त्वच्चैव परिदह्यते न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः निमित्तानि च विपरीतानि केशव न च श्रेयोनुपश्यामि हत्वा स्वजनमाहवे न विजयं कृष्ण न राज्यं सुखानि च किं नो राज्ये न गोविन्द किं भोगैर्जीवितेन वा येषामर्थे काङ्क्षितम् ज्य भोगा सुखा चइमें स्थिता युद्ध प्राण त्यक्वाधना च आचार्य पुत्रस्त मशुरा पौत्र सलाबंधिस्त हमिचा न तो मधुसूदन अोक्यराज्य हेतु किहत्य थार्टराष्न का प्रीति सदन पापमेंश्रिए तस्मा हईताय तस्मान्नार्भावयं हन्तुं भार्तराष्ट्रान् स्वबान्धवा स्वजनं हि कथं हत्वा सुखिनः स्याममाधव यद्यप्येते न पश्यन्ति लोभोपहतचेतसः कुलक्षयकृतं दोषम्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 पतन्ति पितरो हेषां लुप्तपिण्डोदकक्रियाः दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः उत्सात्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः उत्सन्नकुलधर्माणाम् मनुष्याणां जनार्दन नरके नियतं वासो भवतीत्यनुशुश्रुम अहो बत महत्पापं कर्तुं व्यवसिता वयं यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः यदि मामप्रतीकारम् अशस्त्रं शस्त्रपाणयः धार्तराष्ट्रारणी ह्युः तन्मे क्षेमतरं भवेत् सञ्जय उवाच एवमुक्त्वा अर्जुनः सङ्ख्ये विसृज्य सचरं चापं शोकसंविघ्नमानसः ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः